कारनिधये नमः ॐकारसन्निभाय नमः ॐकारकर्तरे नमः ॐकारवेत्रे नमः ॐकारबोधकाय नमः ॐकारमौलये नमः ॐकारकेलये नमः ॐकारवारिधये नमः ॐकार्येयाय नमः ॐकारशेखराय नमः ॐकारविश्वाय नमः ॐकारज्ञेयाय नमः ॐकारपेशलाय नमः कारमूर्ध्नेे नमः ॐकारफालाय नमः ॐकारनासिकाय नमः ॐकारचक्षुषे नमः ॐकारश्रुतये नमः ॐ भ्रूयुगाय नमः ॐकारवटवे नमः ॐकारहनवे नमः ॐकारकागुधाय नमः ॐकारकण्ठाय नमः ॐकारस्कन्धाय नमः ॐकारधोर्युगाय नमः ॐकारवक्षसे नमः ॐकारकुक्षये नमः ॐकारपार्श्वकाय नमः ॐकारपृष्ठाय नमः ॐकारकठये नमः ॐकारमध्यमाय नमः ॐकारसक् ये नमः ॐकार जानवे नमः ॐकारगुल्फकाय नमः ॐकारचरणद्वन्द्वाय नमः ॐकारमणिपादुकाय नमः ॐकारभद्रपीठस्थाय नमः ॐकारस्तुतविग्रहाय नमः ॐकारमयसर्वां गाय नमः ॐकारगिरिजापतये नमः ॐकारमणिदीपार्चिषे नमः ॐकारवृषवाहनाय नमः ॐ गाय नमः ॐजस्विने नमः ॐजस् तेजोद्युदिधराय नमः ॐ नम्बीजपप्रियाय नमः ॐ ॐ नमः पदवाश्चखाय नमः ॐ पदस्तव्याय नमः ॐ पदातीतवस्तवंसाय नमः ॐ पदप्रियाय नमः ॐ इत्येकाक्षरात्पराय नमः ॐ भं गं स्वरूपकाय नमः ॐ अद्भ्यो नमः ॐ नभोमहसे नमः ॐ माधये नमः ॐ पूमये नमः ॐ वों यं बीजवराध्याय नमः ॐत्रां बीजतत्पराय नमः ॐ वह्निरूपाय नमः ॐ ॐ वायवे नमः ॐ ॐ मीशाय नमः ॐ वन्ध्याय नमः ॐ वं तें बीजसुलभाय नमः रजापित्रे नमः ॐ शिवायेति सञ्जभ्याय नमः ॐषधिप्रभवे नमः ॐषधीसाय नमः ॐकारस्य सुब्रह्मण्यदेवताराजवस्यार्थे विनियोग नमः औकाराय नमः ॐकारेश्वरपूजिताय नमः ॐ अङ्कारस्य परमात्मा देवता हस्तिवस्यार्थे विनियोग नमः ॐ अङ्काराय नमः अङ्किधोत्तमवर्णाय नमः ॐ अङ्गलुब्धाय नमः ॐ अङ्गाय नमः ॐ अङ्गुष्टशिरालङ्गानाधदर्भहराय नमः ॐ अङ्गीरसे नमः ॐ अङ्गहारिणे नमः ॐ अन्तकान्तकाय नमः ॐ अन्तकहर्त्रे नमः ॐ अन्तस्थाय नमः ॐ अन्तरिक्षस्वरूपाय नमः ॐ अन्तःसत्त्वगुणोद्भासिशुद्धस्फटिकविग्रहाय नमः ॐ अन्धकवरप्रदाय नमः ॐ अन्धकाय नमः ॐ अन्तर्हिताय नमः ॐ अन्तर्यामिणे नमः ॐ अन्त्यकालाधिपतये नमः ॐ अन्तरात्मने नमः ॐ अंतकांतकृते नमः ॐ अन्ताय नमः ॐ अन्तकराय नमः ॐ अन्धकारिणे नमः ॐ अन्तरिक्षाय नमः ॐ अन्तर्हितात्मने नमः ॐ अन्धकासुरसूधनाय नमः अन्धकारये नमः ॐ अन्धसस्पतये नमः ॐ अन्धकासुरहन्त्रे नमः ॐ अन्धकान्तकाय नमः ॐ अन्धकदातिने नमः ॐ अन्धकासुरसंहर्त्रे नमः ॐ अन्धकरिभवे नमः ॐ अन्धकासुरपञ्जनाय नमः ॐ अन्धकारिणिषूधनाय नमः ॐ अम्भरवासाय नमः ॐ अम्बिकानादाय नमः ॐ अम्बिकाधिपतये नमः ॐ अम्बिकार्धशरीरिणे नमः ॐ अम्बरवाससे नमः ॐ अम्बायापरमेशाय नमः ॐ अम्बिकापतये नमः ॐ अम्बिकाभर्द्रे नमः ॐ अम्बरकेशाय नमः ॐ अम्बराङ्गाय नमः ॐ अम्बुजालाय नमः ॐ अम्भसाम्पतये नमः ॐ अम्भोजनयनाय नमः ॐ अम्भसे नमः ॐ अम्भोनिदये नमः ॐ अंसवे नमः ॐ अंससुखागमपृष्ठाय नमः ॐ अ इ क्षरस्य ब्रह्मविष्णवीसा देवता मृत्युनासे विनियोग नमः ॐ अक्वर्णान्वितरायथे नमः ॐ ककारस्य परमात्मा देवतारजोगुणनिवर्तने विनियोग नमः कृतवासुकये नमः ॐ ककुभाय नमः ॐ कम्य नमः ॐ कम्करूपाय नमः ॐ कम्कणीकृतपन्दगाय नमः ॐ कगुद्मते नमः ॐ कङ्कालवेषाय नमः ॐ कम्कपर्धाय नमः ॐ कङ्कालधारिण नमः ॐ ककुन्बिने नमः ॐ कङ्काराय नमः ॐ कङ्काळाय नमः ॐ कंकवये नमः ॐ कुक्कुडवाहनाय नमः ॐ कांशनच्चधये नमः ॐ कांशनमालधराय नमः ॐ कुजकुङ्कुमचन्दनलेपितलिङ्गाय नमः ॐ कूजकिङ्किणीकाय नमः क्षाय नमः ॐ कटिसूत्रकृताहये नमः ॐ कढ्या नमः ॐ काढ्याय नमः ॐ कटाक्षोत्तहूतभुक्तभौतिकाय नमः ॐ कुटुम्बिने नमः ॐ कूटस्थाय नमः ॐ कूटस्थचैतन्याय नमः ॐ कोटिकन्धर्भलावण्यस्वरूपाय नमः ॐ कोटिसूर्यप्रकाशाय नमः ॐ कोटिमन्मथसौन्दर्यनितये नमः ॐ कोटिसूर्यप्रतीकाशाय नमः ॐ कोटिकन्धर्भसङ्काशाय नमः ॐ कठोराय नमः ॐ कठोराङ्गाय नमः ॐ कठोरजनदाककाय नमः ॐ कुटारायुधपाणगे नमः ॐ कुण्डलिने नमः ॐ कुण्डलीनामकलया दिव्यभारद्रशुद्धाध्वजन्मने नमः ॐ कुण्डलीसाय नमः ॐ कुण्डलीमध्यवासिने नमः ॐ क्रीडते नमः ॐ क्रीडयित्रे नमः ॐ क्रोटश्रृङ्गतराय नमः ॐ कणपत्तुलाकोटिमनोहारान्ध्रिकमलाय नमः ॐ कणादाय नमः ॐ कणन्नूपुरयुग्माय नमः ॐ कान्तिशिवाय नमः ॐ कान्दार्धकमनीयाङ्गाय नमः ॐ कान्ताय नमः ॐ कान्दार्धभागमनीय कलेभराय नमः ्याकनगाद्रिनिभाय नमः ॐ कात्यायनाय नमः ॐ कात्यायनीसेविताय नमः ॐ कान्तरूपाय नमः ॐ कृतंकणभोगीन्द्राय नमः ॐ कृधागमाय नमः ॐ कृत्तिवाससे नमः ॐ कृतजाय नमः ॐ कृत्तिभूषणाय नमः ॐ कृतानन्धाय नमः ॐ कृताय नमः ॐ कृतिसुन्दराय नमः ॐ कृतान्ताय नमः ॐ कृतादिभेतकालाय नमः ॐ कृतये नमः ॐ कृतकृकृत्यात्मने नमः ॐ कृतकृकृत्याय नमः ॐ कृत्कृत्यविध नमः ॐ कृत्यविश्रेष्ठाय नमः ॐ कृतज्ञप्रियतमाय नमः ॐ कृदान्तकमःर्पनाशकाय नमः ॐ कृतया वसनवते नमः ॐ कृतमनोभवभङ्गाय नमः ॐ कृष्णवीताय नमः ॐ केतवे नमः ॐ केतुमालिने नमः ॐ केतुमते नमः ॐ कृ तोद्वंशिने नमः ॐ कदलीकुण्डसौभाग्यजिदजितोरुशोभिताय नमः ॐ कदम्बवनवासिने नमः ॐ कर्तृद्राय नमः ॐ कदम्बकुङ्गुमद्रवप्रालिधिगवधूमुखाय नमः ॐ कदम्बकाननाध्यक्षाय नमः ॐ कद्रवे नमः ॐ कदम्बकाना य नमः ॐ कदम्बकान्तकान्ताराय कल्पितेन्द्रविमानकाय नमः ॐ कदम्बसुन्दराय नमः ॐ कदम्बकाननिवासकुतूहलाय नमः ॐ कुन्ददन्ताय नमः ॐ कुन्देन्दुष प्रभाय नमः ॐ कुन्देन्दुसङ्कपाण्डुरां गाय नमः ॐ कुन्देन्दुसंकस्फाटिकभाहासाय नमः ॐ कोदण्डीने नमः ॐ कन्दरभागो जलधरनीलाय नमः ॐ कन्दरायामसिताय नमः ॐ कृतरेशानाय नमः ॐ क्रोधाय नमः ॐ क्रोधविदे नमः ॐ क्रोधनाय नमः ॐ क्रोधिजनभिते नमः ॐ क्रोधरूपद्रुहे नमः ॐ क्रोधग्ने नमः ॐ क्रोधिजन क्रोधपराय नमः ॐ क्रोधागाराय नमः ॐ कनगुढ्याणबन्धवते नमः ओम् कनकाय नमः ॐ कनगिरिसरासनाय नमः ॐ कनकान्धहाराय नमः ॐ कनकलिङ्गाय नमः कनकमालाधराय नमः ॐ कनिष्ठाय नमः ॐ कनकमहामणिभूषहिताङ्गाय नमः ॐ केनचिदनावृताय नमः ॐ कन्यकाकानकरीनादाय नमः ॐ कबर्धिने नमः ॐ कपालमालधराय नमः ॐ कपालिने नमः ॐ कपालमालिकाधराय नमः ॐ कपिलाचार्याय नमः ॐ कपिलश्मश्रवे नमः ॐ कपालवते नमः ॐ कपिलाय नमः ॐ कपीशाय नमः ॐ कपालदण्डभाषाग्निशर्माङ्कुशधराय नमः ॐ कम्पाय नमः ॐ कपालमालिने नमः ॐ कपालपाणये नमः ॐ कपये नमः ॐ कपालमालाकलिताय नमः ॐ कपालधारिणे नमः ॐ कपालिने नमः ॐ कपालिव्रताय नमहान् ॐ कूपाय नमः ॐ कूप्याय नमः ॐ कृपाकटाक्षधोरणीनिरुद्धुर्धरापधे नमः ॐ कृपानिधये नमः ॐ कृपासागराय नमः ॐ कृपारसाय नमः ॐ कृपाकराय नमः ॐ कृपावारान्निधये नमः ॐ कपलीकृतसंसाराय नमः ॐ कम्बुकण्ठाय नमः ॐ कम्बुकण्डलसंनोद्येयाय नमः ॐ कुबेरबन्धवे नमः ॐ कुबेरमित्राय नमः ॐ कमलासनार्चिताय नमः ॐ कमलेक्षणाय नमः ॐ कमनीयकराम्बुजाय नमः ॐ कमण्डलुधराय नमः ॐ कमटिकर्पकारप्रभदा य नमः ॐ कमलहस्ताय नमः ॐ कमलप्रियाय नमः ॐ कमलासनकालाग्नये नमः ॐ कमलासनपूजिताय नमः ॐ कमलाभारतीन्द्राणि नमः ॐ कमयित्रे नमः ॐ कमलासनस्तुताय नमः ॐ कमनीयगुणाकराय नमः ॐ कमनीयकायाय नमः ॐ कमलकान्तये नमः ॐ कमलापतिसायकाय नमः ॐ कम्राय नमः ॐ कमलासनवङ्गिदाज्ञ नमः ॐ कामाय नमः ॐ कामारये नमः ॐ कामसुन्दराणाम् कामेशाय नमः ॐ कामदेवाय नमः ॐ कामपालाय नमः ॐ कामिने नमः ॐ कामदहनकरुणाकरलिङ्गाय नमः ॐ कामसासनाय नमः ॐ कामनाशकाय नमः ॐ कामकालपुरारये नमः ॐ कामधाय नमः ॐ कामां गदहनाय नमः ॐ कामप्रियाय नमः ॐ कामगाय नमः ॐ कामिकाध्यागमपञ्चगप्रतिपादकपूर्ववदनाय नमः मिघाध्यागमपञ्चगप्रतिभातकपश्चिमवदनाय नमः ॐ कामिघामबाधाय नमः ॐ काम्याय नमः ॐ कामहराय नमः ॐ कामविवर्जिताय नमः ॐ कामनित्यात्मने नमः ॐ कामशरीरनाशकाय नमः ॐ कामनाशिने नमः ॐ कामान्तकाय नमः मरूपिणे नमः ॐ कामिनीवल्लभाय नमः ॐ काम्यार्ताय नमः ॐ कामेशहृदयङ्गमाय नमः ॐ कामेश्वराय नमः ॐ कामरूपाय नमः ॐ कामकलात्मकाय नमः ॐ कामगर्वापहारिणे नमः ॐ कामदेवात्मकाय नमः मिधार्तधाय नमः ॐ कामधायिने नमः ॐ कामग्नाय नमः ॐ कामाङ्गनास्तुताय नमः ॐ कुमाराय नमः ॐ कुमारगुरवे नमः ॐ कुमारजनकाय नमः ॐ कुमारशत्रुविघ्नाय नमः ॐ कुमारजनाय नमः ॐ कुमारपित्रे नमः ॐ कोमलाय नमः ॐ कोमलावयनोज्ज्वलाय नमः ॐ कायान्तरस्तामृदाधारमण्डलान्तस्थिताय नमः ॐ क्रियावस्थाय नमः ॐ क्रियावते नमः ॐ क्रियाशक्तिस्वरूपिणे नमः ॐ केयूरभूषणाय नमः ॐ करुणासागराय नमः ॐ कर्णामृताय नमः ॐ कर्णिकाराय नमः ॐ कर्पूरकान्तिधवलाय नमः ॐ कर्णाय नमः ॐ करस्फुरत्कपालमुत्तुरस्तु विष्णुपालिने नमः कर्त्रे नमः ॐ करालफालपट्टिगादगधदृगदृग ज्वलेन्द्रदया दुरीकृतप्रचण्डपञ्चशासकाय नमः ॐ कर्मकालविदे नमः ॐ कर्म सर्वबन्धविमोचनाय नमः ॐ करस्तालिने नमः ॐ कर्णिकारमः स्रग्णे नमः ॐ कराळाय नमः कर्मढानामुपास्याय नमः ॐ कर्मढानांनां प्रभवे नमः ॐ कराळवक्त्राय नमः ॐ कर्मासाख्यपूर्ववदनाय नमः ॐ कर्मासादाख्यदक्षिणवदनाय नमः ॐ कर्पूराद्यन्तशीतलाय नमः ॐ कर्पूरगौराय नमः ॐ करवीरप्रियाय नमः ॐ कर्तुप्रेरकाय नमः ॐ कर्पूरसुन्दराय नमः ॐ कर्पूरदेहाय नमः ॐ कर्पूरर्धवलाकाराय नमः कर्मात्मने नमः ॐ करुणावरुणालयाय नमः ॐ करुणामयसागराय नमः ॐ कर्णावतंसीकृतनागराजाय नमः ॐ कर्मण्याय नमः ॐ करुणामृतसागराय नमः ॐ कर्मकृे नमः ॐ कर्मभाषमोषकाय नमः ॐ कर्मकर्तृफफलप्रदाय नमः कर्पूरस्फटिगेन्द्रसुन्दरवधे नमः ॐ करुणाभूरिदक्षिणाय नमः ॐ कर्णालङ्कृते शेषभूषणाय नमः ॐ करुणासमुद्राय नमः ॐ करुणावताराय नमः ॐ कर्पूरधवलाय नमः ॐ करुणामयाय नमः णे नमः ॐ कराळदंष्ट्रेक्षणाय नमः ॐ कर्मसाक्षिणे नमः ॐ कर्मारेभ्यो नमः ॐ करविराजत्कुरङ्काय नमः ॐ करुणाकराय नमः ॐ कारणाय नमः ॐ कारणत्रयहेतवे नमः ॐ कार्यकोविधाय नमः ॐ कारणागमजङ्घाय नमः ॐ कारणामगभुक्तिमुक्तिफलदक्षात्रयात्मने नमः ॐ कारणगमश्रोत्राय नमः ॐ कारुण्यनिधये नमः ॐ कारुणां विश्वकर्मणे नमः ॐ काल्यनाशकाय नमः ॐ कार्याकारणरूपाय नमः my home ॐ किरीटिने नमः ॐ किरीटवरधारिणे नमः ॐ किराताय नमः ॐ किरीकेशेभ्यो नमः ॐ किराणागमरत्नभूषणाय नमः ॐ किरातवेशस्वराय नमः ॐ किरीटलेडिभालेन्धवे नमः ॐ कीर्तिमते नमः ॐ कीर्तिवर्धनाय नमः ॐ कीर्तिस्तम् म्भाय नमः ॐ कीर्तिजागराय नमः ॐ कीर्तिनादाय नमः ॐ कुरवे नमः ॐ कुरुकर्त्रे नमः ॐ कुरुवासिने नमः ॐ कुरुभूताय नमः ॐ कुरङ्गत् विलसत्पाणिकमलाय नमः ॐ कुर्दते नमः ॐ कूर्मास्तिसमलम् कृताय नमः ॐ कूर्माकृतये नमः ॐ कूर्मधराय नमः ॐ क्रूरहारिणे नमः ॐ क्रूरोग्रमर्षिणाय नमः ॐ क्रूराय नमः ॐ कल्मषरहिताय नमः ॐ कलिद्रुमस्याय नमः ॐ कल्पाय नमः ॐ कल्याणाचलकोदण्डकनकरतलाय नमः ॐ कल्पादये नमः ॐ कलाधराय नमः ॐ कलाविलासकुशलाय नमः ॐ कलाध्यक्षाय नमः ॐ कलादरकलामौलये नमः ॐ कलावपुषे नमः ॐ कलानिधाय बन्धुराय नमः ॐ कलङ्कग्ने नमः ॐ कलङ्घाङ्गाय नमः ॐ कलङ्कारये नमः ॐ कल्याणसुन्दरपतये नमः ॐ कलये नमः ॐ कल्याणचलको दण्डकाण्डधोर्दण्ड मण्डिदाय नमः कलाकाष्ठालवमात्रात्मकाय नमः ॐ कल्पोदय नमः ॐ कल्पानां प्रभवे नमः ॐ कल्पोदयनिभन्तवार्तानां प्रभवे नमः ॐ कलाध्वनामकसंवीर्घाय नमः ॐ कल्याणसुन्दराय नमः ॐ कलामूर्तये नमः ॐ कल्पकराय कलिकृतिकारिणे नमः ॐ कल्याय नमः ॐ कल्पकर्त्रे नमः ॐ कल्याणधादृतनुर्धराय नमः ॐ कल्परक्षणतत्पराय नमः ॐ कल्पाकल्पकृतये नमः ॐ कल्पनासनाय नमः ॐ कल्पकल्पकाय नमः ॐ कल्याणरूपाय नमः ॐ कल्याणसंश्रयाय नमः ॐ कलाधीशाय नमः ॐ कल्पनारहिताय नमः ॐ कल्पराजाय नमः ॐ कलयतां कालाय नमः ॐ कलिविवर्जिताय नमः ॐ कलिकल्मषदोषज्ञे नमः ॐ कल्पहृदे नमः ॐ कल्पहारकाय नमः ॐ कलङ्कवते नमः ॐ कलङ्करहिताय नमः ॐ कलानिधये नमः ॐ कलाकुशलाय नमः ॐ कल्पान्दभैरवाय नमः ॐ कलुषविदूराय नमः ॐ कल्याणदाय नमः ॐ कल्याणमन्दिराय नमः ॐ कालकालाय नमः ॐ कालाभ्रकान्तिकरणाङ्गितकन्धराय काला काला नमः ॐ कालयोगिने नमः ॐ कालकण्ठाय नमः ॐ कालज्ञानिने नमः लभक्षाय नमः ॐ कालाय नमः ॐ कालकटङ्कटाय नमः ॐ कालदृशे नमः ॐ कालभ्रमतिने नमः ॐ कालरूपाय नमः ॐ कालब्रह्मपितामहाय नमः ॐ कालपूजिताय नमः ॐ कालानाम् प्रभवे नमः ॐ कालवेगाय नमः ॐ कालाग्निरुद्ररूपाय नमः ॐ कालिकाकारणाय नमः ॐ कालकुटाराय नमः ॐ कालार्यादिसप्तमूर्तिप्रतिपादकदक्षिणवदनाय नमः ॐ कालारये नमः ॐ कालकूटविषादनाय नमः ॐ कालाग्निरुद्राय नमः ॐ कालाग्निभाय नमः ॐ कालानलप्रभाय नमः लहन्त्रे नमः ॐ कालकूटविशासिने नमः ॐ कालरूपिणे नमः ॐ कालचक्रप्रवर्तिने नमः ॐ कालग्रासाय नमः ॐ कालान्तकाय नमः ॐ कालात्पराय नमः ॐ कालरुद्राय नमः ॐ कालाग्नये नमः ॐ कालभैरवाय नमः ॐ कालदहनाय नमः ॐ कालकलादिगाय नमः ॐ कालकूटलसत्कण्ठाय नमः ॐ कालक्षयंकराय नमः ॐ कालातीताय नमः ॐ कालस्थाय नमः ॐ कालकूटप्रभाजालकलङ्कीकृतगन् कन्धराय नमः ॐ कालधुरन्धराय नमः ॐ कालकृतां निधये नमः ॐ कालिकावरताय नमः ॐ कालिकान्तिलसद्गलाय नमः ॐ कालकूटभयापहाय नमः ॐ कालाधिपतये नमः ॐ कालरूपधराय नमः ॐ कालदण्डधराय नमः ॐ कीलानेकसहस्रसंकुलसिखिवस्तम्भरूपाय नमः ॐ कीला वनिपावकानिलनभ्यश्चन्द्रार्घयच्छ्वाकृतये नमः ॐ कुलुं शेषाय नमः ॐ कुलुञ्चानां पतये नमः ॐ कुलेयाय नमः ॐ कुलालेभ्यो नमः ॐ कुलशेखरभूपानां कुलधैवताय नमः ॐ कुलगिरिसर्वस्वकवर्चिदाङ्गाय नमः ॐ कूलहारिणे नमः ॐ कूलकर्त्रे नमः ॐ कूल्याय नमः ॐ कैलासप्रियाय नमः ॐ कैलासाचलवासाय नमः ॐ कैलासवासिने नमः ओं कैलास शृंगस का सोशवरवाहयाय नहा कैलासपतये नमः ॐ कैलासशिखरावासाय नमः ॐ कैलासगिरिसायिने नमः ॐ कैलासकल्पवृषभवाहनाय नमः ॐ कोलाहलमहोदारसरभाय नमः ॐ कोलाच शधमातवशिरज्येष्ठादिधूरन्त्रिगाय नमः ॐ कवये नमः ॐ कव्यवाहनाय नमः ॐ कवचिने नमः ॐ कव्याय नमः ॐ कवटाकटिनोरस्काय नमः काव्याय नमः ॐ कावेरी नर्मदा सङ्गमे ॐकाराय नमः ॐ कुवलयसहस्पर्धिघलाय नमः ॐ गोविधाय नमः ॐ केवलाय नमः ॐ कैवल्याय नमः ॐ कैवल्यधाय नमः ॐ कैवल्यदायिने नमः ॐ कैवल्यदाननिरताय नमः ॐ कैवर्ताय नमः ॐ कैवल्यपरमानन्ददायकाय नमः ॐ काश्यपाय नमः ॐ काशीवासलोकपुण्यपापशोधकाय नमः ॐ काशीविशुद्धदेहाय नमः ॐ काशीनाथाय नमः ॐ कास्यभदीक्षा गुरुभूतोत्रवदनाय नमः ॐ काशीशानाय नमः ॐ काशिकापुरादिनाथाय नमः ॐ काशीपतये नमः ॐ किशोरचन्द्रशेखराय नमः लाय नमः ॐ कुशशूडामणये नमः ॐ कुशलाय नमः ॐ कुशलाघमाय नमः ॐ कृसानवे नमः ॐ कृशानुरेतसे नमः ॐ केशवाय नमः ॐ केशवब्रह्मसङ्घ्रामवारकाय नमः ॐ केशवसेविताय नमः ॐ कौशिकदीक्षा गुर्वर्गस्थ्यादिदीक्षा गुरुभूतो वदनाय नमः ॐ कौशिकाय नमः ॐ कौशिकदीक्षा गुरुभूतपश्चिमवदनाय नमः ॐ कौशिकसम्प्रदायज्ञाय नमः ॐ कौशाय नमः ॐ काष्ठानां प्रभवे नमः ॐ क्लिष्टभक्तुष्टधायिने नमः ॐ कृष्णाय नमः ॐ कृष्णपिङ्गळाय नमः ॐ कृष्वर्णाय नमः ॐ कृष्णवर्मिणे नमः ॐ कृष्णस्य जयधात्रे नमः ॐ कृष्णानन्दस्वरूपिणे नमः ॐ कृष्णचर्मधराय नमः ॐ कृष्णकुंसितमूर्धज्जाय नमः ॐ कृष्णादिदोत्तरीयाय नमः ॐ कृष्णाभिरताय नमः ॐ कस्तूरिविलसत्फालाय नमः ॐ कस्तूरि तिलकाय नमः ॐ कुसुमामोदाय नमः ओम ष्टराय नम काहलिने नमः ॐ कक्षीसाय नमः ॐ कक्षणाम्पतये नमः ॐ कक्षाय नमः ॐ कक्ष्यबन्धाब्धशकरकटितटविराजिताय नमः ॐ काक्षिदार्थशूरद्रुमाय नमः ॐ कुशिताशशेभुवनाय नमः ककारस्य गरुडो देवतापापविनाशने विनियोग नमः ॐ ककाराय नमः ॐ कगाय नमः ॐ ककेश्वराय नमः ॐ केशराय नमः ॐ कच्छन्त्रकलाधराय नमः ॐ कचराय नमः ॐ कज्योतिषे नमः ॐ कट्वाङ्गिने नमः ॐ कट्वाङ्गहस्ताय नमः ॐ कट्वाङ्गतारिणे नमः ॐ खवाङ्गखकट्गचर्मचक्राध्यायुतभीषणकराय नमः ॐ केटकाय नमः ॐ कण्डपरसवे नमः ॐ खड्गिणे नमः ॐ खण्डिदाशेषभुवनाय नमः ॐ कण्गणाताय नमः ॐ खण्डभाषिताय नमः ॐ ख्याताय नमः ॐ केतरहिताय नमः ॐ कद्योताय नमः ॐ करशुलाय नमः ॐ करान्तकृते नमः ॐ कल्याय नमः लनाय नमः ॐ गस्य गणपतिदेवताराज्यसिद्धौ विनियोग नमः ॐ गकाररूपाय नमः ॐ गोकर्णाय नमः ॐ गगनरूपाय नमः ॐ गगनस्थाय नमः ॐ गगणेशाय नमः ॐ गगनगम्भीराय नमः ॐ गगनसमरूपाय नमः ॐ गङ्गाधराय नमः ॐ गङ्गातुङ्गतरङ्गरञ्चितजाभाराय नमः ॐ गङ्गाप्लवोधकाय नमः ॐ गङ्गाजलप्लावितकेशदेशाय नमः ॐ गङ्गासलिलधराय नमः ॐ गङ्गासम्मार्जितांहसे नमः ॐ गङ्गाधारिणे नमः ॐ गङ्गाजूटाय नमः ॐ गङ्गास्नानप्रियाय नमः ॐ गङ्गास्नानफलप्रदाय नमः गङ्गाभास्थितमौलये नमः ॐ गङ्गाचन्द्रकलाधराय नमः ॐ गङ्गेताय नमः ॐ गङ्गेपरिपूजिताय नमः ॐ गोज्ञाय नमः ॐ गोज्ञाय नमः ॐ गोचराय नमः ॐ गोचर्मवसनाय नमः ॐ गजचर्माम्बराय नमः ॐ गजारये नमः ॐ गजेन्द्रगमनाय नमः ॐ गजेन्द्राणामैरावताय नमः ॐ गजासुरारये नमः ॐ गजाजिनावृताय नमः ॐ गजग्ने नमः ॐ गजदैत्याजिनाम्बराय नमः ॐ गजचर्म परिधानाय नमः ॐ गजाननप्रियाय नमः ॐ गजारूढाय नमः ॐ गजचर्मिणे नमः ॐ घण्टस्फुरभुजगकुण्डलमण्डिताय नमः ॐ गजराजविमर्दनाय नमः ॐ गौडभादनिषेविताय नमः ॐ गाण्डीवधन् विने नमः ॐ गाण्डीविने नमः ॐ गुडान्नप्रीतमानसाय नमः ॐ गुडगेशपुरभूजिताय नमः ॐ गाढाय नमः ॐ गुडस्वरूपाय नमः ॐ गूटमहाव्रताय नमः ॐ गूढपादप्रियाय नमः ूढाय नमः ॐ गूढगुल्फाय नमः ॐ गूढधनवे नमः ॐ गूढत्रवे नमः ॐ गणाय नमः ॐ गणकर्त्रे नमः ॐ गणपतये नमः ॐ गणाधिपतये नमः ॐ गणेश्वराय नमः ॐ गणनाथाय नमः ॐ गणकार्याय नमः ॐ गणरासये नमः ॐ गणाधिपाय नमः ॐ गणकाराय नमः ॐ गणकोटिसमन्विताय नमः ॐ गणाधिपनिषेविताय नमः ॐ गणाधिस्वरूपाय नमः ॐ गणाप्रियंकराय नमः ॐ गणौषधाय नमः ॐ गणनित्यव्रताय य नमः ॐ गणानां विनायकाय नमः ॐ गणानादभूतसमावृताय नमः ॐ गणेशादिप्रपूजिताय नमः ॐ गणनाथसहोदरप्रियाय नमः ॐ गणेशाय नमः ॐ गणेशकुमारवन्द्याय नमः ॐ गणपाय नमः ॐ गणानुयातमार्गाय नमः ॐ गणगाय नमः ॐ गणवृन्दद्रताय नमः ॐ गणगोचराय नमः ॐ गणाध्यक्षाय नमः ॐ गणानन्दपात्राय नमः गणगीताय नमः ॐ गणापध्यागमप्रियाय नमः ॐ गुणाय नमः ॐ गुणात्मने नमः ॐ गुणाकराय नमः ॐ गुणकारिणे नमः ॐ गुणवते नमः ॐ गुणविश्रेष्ठाय नमः ॐ गुणविप्रियाय नमः ॐ गुणाधाराय नमः ॐ गुणाकाराय नमः ॐ गुणाकृते नमः ॐ गुणोत्तमाय नमः ॐ गुणनाशकाय नमः ॐ गुणग्रहाहिने नमः ॐ गुणत्रयस्वरूपाय नमः ॐ गुणातिकाय नमः ॐ गुणातीताय नमः ॐ गुणरप्रमिताय नमः ॐ गुण्याय नमः ॐ गुणाष्टकप्रदाय नमः ॐ गुणिने नमः ॐ गुणत्रयोपरिष्टाय नमः ॐ गुणाज्ञाय नमः ॐ गुणबीजाय नमः ॐ गुणात्मकाय नमः ॐ गुणीशाय नमः ॐ गुणिबीजाय नमः ॐ गुणीनां गुरवे नमः ॐ गुणवतां श्रेष्ठाय नमः ॐ गुणेश्वराय नमः ॐ गुणत्रया त्मकाय नमः ॐ गुणत्रयविभाविताय नमः ॐ गुणज्ञेयाय नमः ॐ गुणध्येयाय नमः ॐ गुणाध्यक्षाय नमः ॐ गुणगोचराय नमः ॐ गुणोज्ज्वलाय नमः ॐ गुणबुद्धिबलालयाय नमः ॐ गुणत्रयात्मगमायासफलत्वप्रकाशकाय नमः ॐ गुणानाम् सुनृत्यकाय नमः ॐ गतये नमः ॐ गदा गदाय नमः ॐ गतिमताम् श्रेष्ठाय नमः ॐ गतिगम्याय नमः ॐ गीतशीलाय नमः ॐ गीतपादाय नमः ॐ गीतप्रियाय नमः ॐ गीतागममूलदेशिकाय नमः ॐ गोत्रणे नमः ॐ गोत्राणां पतये नमः ॐ गोत्राणां तत्पराय नमः ॐ गौतमाय नमः ॐ गौतमदीक्षा नमः ॐ गौतमीतीर्थे नमः ॐ गताहस्ताय नमः ॐ गदान्धकृते नमः गदात्यायुतसम्पन्नाय नमः ॐ गोतावरीप्रियाय नमः ॐ गन्धाद्घ्राणकारिणे नमः ॐ गन्धरायवे नमः ॐ गन्धपालिने नमः ॐ गन्धिने नमः ॐ गन्धर्वाणां पतये नमः ॐ गन्धर्वसेव्याय नमः ॐ गन्धर्वकुलभूषणाय नमः ॐ गन्धर्व प्रीताय नमः ॐ गन्धर्वाप्सरसां प्रियाय नमः ॐ गन्ध्वमाल्यविभूषिताय नमः ॐ गन्धपतये नमः ॐ गाधाप्रियाय नमः ॐ गाधिपूजिताय नमः ॐ गान्धाराय नमः ॐ गन्धसाराभिषेकप्रियाय नमः ॐ गोधाराय नमः ॐ गन्धर्वकिन्नरसुगीते गुणाधिकाय नमः ॐ गोधनप्रदाय नमः ॐ गानलोलुपाय नमः ॐ गुप्ताय नमः ॐ गोपतये नमः ॐ गोप्याय नमः ॐ गोप्त्रे नमः ॐ गोपालिने नमः ॐ गोपालय नमः ॐ गोपनीयाय नमः ॐ गोप्रियाय नमः ॐ गम्भीरजपुप्रीताय नमः ॐ गभीराय नमः ॐ गपस्तये नमः ॐ गम्भीराय नमः ॐ गम्भीरनायकाय नमः ॐ गम्भीरहृदयाय नमः ॐ गम्भीरवाक्याय नमः ॐ गम्भीरदोषाय नमः ॐ गम्भीरबलवाहनाय नमः ॐ ग्रामण्ये नमः ॐ ग्रामाय नमः गोमते नमः ॐ गोमत्प्रियाय नमः ॐ गोमयाय नमः ॐ गोमतृपरिसेविताय नमः ॐ गयाप्रयाघनिलयाय नमः ॐ गायकाय नमः ॐ गायत्रीवल्लभाय नमः ॐ गाय त्रयाधिस्वरूपाय नमः ॐ गायत्री जपतत्पराय नमः ॐ गायत्री तुल्यरूपाय नमः ॐ गायत्री मन्त्रजनकाय नमः ॐ गीयमानगुणाय नमः ॐ गेयाय नमः ॐ गरग्रीवाय नमः ॐ गरुडाग्रपूजिताय नमः ॐ गर्विताय नमः ॐ गराय नमः ॐ गर्भनाशकाय नमः ॐ गरुडोरगसर्पपक्षीणाम्पतये नमः ॐ गर्भचारिणे नमः भाय नमः ॐ गरीयसे नमः ॐ गरुडाय नमः ॐ गिरिधन्विते नमः ॐ गिनाय नमः ॐ गिरिभान्तवाय नमः ॐ गिरिरथाय नमः ॐ गिरित्राय नमः ॐ गिरिसुताप्रियाय नमः ॐ गिरिप्रियाय नमः ॐ गरुडध्वजवन्दिताय नमः ॐ गिरिशाधनाय नमः ॐ गिरीशाय नमः ॐ गिरिजासहायाय नमः ॐ गिरिजानर्मणे नमः ॐ गिरिजापतये नमः ॐ गिरीन्द्रदन्वने नमः ॐ गिरीन्द्रात्मजासङ्गृहीतार्धदेहाय नमः ॐ गिरौ संस्थिताय नमः ॐ गुरवे नमः ॐ गुरुमन्त्रस्वरूपिणे नमः ॐ गुरुमायागहानाश्रयाय नमः ं गुरवे नमः ॐ गुरुरूपाय नमः ॐ गुरुनामकज्ञापकात्मने नमः ॐ गुरुप्रियाय नमः ॐ गुरुलक्षस्वरूपाय नमः ॐ गुरुमण्डलसेविताय नमः ॐ गुरुमण्डलरूपिणे नमः ॐ गुरुज्ञातपद वन्दाय नमः ॐ गुर्वतेताय नमः ॐ गोराभा पुष्परुचिराय नमः ॐ गौरोचनप्रियाय नमः ॐ गौरीभद्रे नमः ॐ गौरीशाय नमः ॐ गौरी हृदयवल्लभाय नमः ॐ गौरी गुरुगुरुहारश्रयाय नमः ॐ गौरीविलासदम्भाय नमः ॐ गौरीपतये नमः ॐ गौरी कटाक्षार्हाय नमः गौराय नमः ॐ गौरीवल्लभाय नमः ॐ गौरी वाङ्गभूषणाय नमः ॐ गौरी मनोहराय नमः ॐ गौरीवदनाब्जवृन्दसूर्याय नमः ॐ गौरीप्रियाय नमः ॐ गौरी कुचभधोरसे नमः ॐ गौरीविलासभवनाय नमः ॐ गव्याय नमः ॐ गवाम्बतये नमः ॐ गोविद्धोक्षितसात्क्रियाय नमः ॐ गोवृक्षेश्वराय नमः ॐ गोवृक्षेन्द्रध्वजाय नमः ॐ गोवृक्षेत्तमवाहनाय नमः ॐ गोविन्ताय नमः ॐ गोविताम्बतये नमः ॐ गोवर्धनधराश्रायाय नमः ॐ गोविन्दपरिपूजिताय नमः ॐ गोविन्दवल्लभाय नमः ॐ गीष्पतये नमः ॐ ग्रीष्माय नमः ॐ ग्रीष्मात्मने नमः ॐ ग्रीष्मकृते नमः ॐ ग्रीष्मवर्धकाय नमः ॐ ग्रीष्मनायकाय नमः ॐ ग्रीष्मनिलयाय नमः ॐ गोष्ठाय नमः ॐ गर्भहराय नमः ॐ गहनाय नमः ॐ गहश्रेष्ठाय नमः ग्रहाय नमः ॐ ग्रहाधाराय नमः ॐ गृहेश्वराय नमः ॐ गृहपतये नमः ॐ गृहकृते नमः ॐ गृहभिधे नमः ॐ ग्रहाग्रहविलक्षणाय नमः ॐ ग्रहवासिने नमः ॐ ग्रहमालिने नमः ॐ ग्रहाणां प्रभवे नमः ॐ गुह्याय नमः ॐ गुहप्रियाय नमः ॐ गुहगुरवे नमः ॐ गुहावासाय नमः ॐ गुहाध्यक्षाय नमः ॐ गुहपालकाय नमः ॐ गुह्यानां प्रकाशकृते नमः ॐ गुह्यानां प्रणवाय नमः ॐ गुह्येशाय नमः ॐ गुहावासिने नमः ॐ गुहेष्ठदाय नमः ॐ गुह्याद्गुह्यतमाय नमः ॐ गृहान्तस्थाय नमः ॐ गृहगतये नमः ॐ गृहस्थाय नमः ॐ गृहस्थाश्रमकारणाय नमः ॐ गृह्याय नमः ॐ गेह्याय नमः ॐ गोहत्यादिप्रसमनाय नमः ॐ गोक्षीरतवलाकाराय नमः ॐ गघारस्य पर्जन्यो देवताकेशरसिद्धौ विनियोग नमः ्रां नमः ॐ घ्रीं नमः ॐ गृं नमः ॐ घ्रैं नमः ॐ ग्रौमन्त्ररूपदृते नमः ॐ गकाराय नमः ॐ घटाय नमः ॐ घटितसर्वासाय नमः ॐ गटात्मजाय नमः ॐ घटेश्वराय नमः ॐ गडोद्गजाय नमः ॐ गण्डाहस्ताय नमः ॐ गण्डाप्रियाय नमः ॐ गण्डारवप्रियाय नमः ॐ गणितकारताय नमः घण्टाकराय नमः ॐ घण्डानिनाधरुचिराय नमः ॐ घण्टाफलप्रियाय नमः ॐ गोटकाय नमः ॐकेश्वराय नमः ॐ गृणये नमः ॐ गृणीमते नमः ॐ गृणिमन्त्रजपप्रीताय नमः ॐ घृतकम्वलाय नमः घृतयोनये नमः ॐ घृतप्रियाय नमः ॐ गणवाताय नमः गणमयाय नमः ॐ गणरुचये नमः ॐ घनश्यामाय नमः ॐ गणतनवे नमः ॐ गणनागनाय नमः ॐ घनाय नमः ॐ गणसारप्रियाय नमः ॐ घर्मदाय नमः ॐ घर्मनाशनाय नमः ॐ घर्मरस्मये नमः ॐ गर्गराय नमः ॐ गर्गरीकारवप्रीताय नमः ॐ गूर्णिताय नमः ॐ गोपुराय नमः ॐ गोपुरपातकधावागृहे नमः ॐ गोपुराभस्मारतनुजसमनाय नमः ॐ गोपुरनोधाय नमः ॐ गोपुरशास्त्रप्रवर्तकाय नमः ॐ गोपुरतपसे नमः ॐ गोषरूपाय नमः ॐ गोषयुक्ताय नमः कारस्य भैरवो देवता सर्वलाभार्ते विनियोग नमः ॐकाराय नमः ॐकारवास्याय नमः ॐ यदेवभूजिताय नमः ॐ यपदप्रियाय नमः ॐस्तोपालकाय नमः ॐ यनिवाराकाय नमः ॐ चकारस्य चण्डिका देवता आयुर्वृद्धौ ॐ चक्रभ्रमणकर्त्रे नमः ॐ चक्रश्राय नमः ॐ चक्रिणे नमः ॐ चक्राब्जध्वजयुग्धां त्रिपङ्गजाय नमः ॐ चक्राय नमः ॐ चक्रधानवमूर्तये नमः ॐ चक्रपाणये नमः ॐ चक्रधराय नमः ॐ चक्रभृते नमः ॐ चेकितानाय नमः ॐ सञ्चरिकाय नमः ञ्चलाय नमः ॐ शिक्षक्तये नमः ॐ चण्डाय नमः ॐ चण्डवेगाय नमः ॐ चण्डसत्यपराक्रमाय नमः ॐ चण्डवदनाय नमः ॐ चण्डमुण्डहराय नमः ॐ चण्डरस्मये नमः ॐ चण्डदीप्तये नमः ॐ चण्डालदमनाय नमः ॐ चण्डिने नमः ॐ चण्डिकेशाय नमः ॐ चण्डदोषविच्छेदप्रवीणाय नमः ॐ चण्डीशवरदाय नमः ॐ चण्डीशाय नमः